अस्तु पुनः एकवारं सर्वेषां सादरं वन्दे आरम्भं कुर्मः आगस्ट् महोदय प्रार्थनया आरम्भं करोति वा प्रार्थनां वदति वा सरस्वती नमस्तुभ्यं वरदे कामरूपि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा शान्ति शान्ति शान्तिः श्रीगुरुगुरु नमः हरिः ओं तु धन्यवादाः धन्यवादः धन्यवादः अद्य दिनस्य अस्माकं विषयः अस्ति यः सः यः सः या सा सः किं नाम सः सः इत्युक्ते नामपदं वा सर्वनामपदं वा क्रियापदं कोऽपि वक्तुं शक्नोति सर्वनामपदं यः यः अपि सर्वनामपदमेव यह सह, यह सह करता। यह सह करता। यह वहती सह वाह कह। यह सह, युक् कथम द्वयोः मध्ये सम्बन्धः कथम् अस्ति कीदृशः सम्बन्धः कोऽपि वक्तुं शक्नोति वा बदे तू? बदे तू? हा वदतु वदतु सः बालकः सः यः क्रीडा सः मम पुत्रः इत्युक्ते किम् सत्यं यदा यः इति पुल्लिङ्गपद्धति तथैव या इति स्त्रीलिङ्गम् सह इति सा, सालिंग अस्त सह शब्द सह शब्द विभक्ति का प्रथम विभक्तिव्य प्रथमा विभक्तिव प्रथमा विभक्तिवचना सह यदा चे प्रथमाविभक्ति द्विवचनान्तबहुवचनान्तरूपं वदतु सः बालकः तौ बालकौ ते बालकाः एवमस्ति तथैव यदा पुल्लिङ्गिरूपं यः इति चिन्तयामः चेत् तस्य परिवर्तनं कथं भवति द्विवचनबहुवचनानि यः ययौ यते सः तौ ते यः यौ यै एकवारं वदतु पुनः एकवारं यः यौ ये सः तौ ते यः यौ ये तथैव सा इति चिन्तयामः चेत् सा शब्दस्य लिङ्गं लिङ्गं किं स्त्रीलिङ्गं विभक्ति का प्रथमाविभक्ति एकवचन तथैव सा शब्दस्य कृते प्रथमाविभक्त्यान्तं द्विवचनरूपं बहुवचनान्तरूपं कथं भवति वदति वा सा तथैव या शब्दस्य कृते या ये या सा महिला ते महिले द्वयं ते महिले ताः महिलाः या महिला ये महिले याहा महिलाः एवमस्ति पश्यामः अत्र यह- तह सा योजयित्वा वाक्यानि रचितानि सन्ति अस्तु महादेवमहोदय नमो नमः अद्य भवतः प्रथमं दिनम् एवं खलु भवान् अत्र किं प्रचलति तत् अवगन्तुं शक्नोति वा अस्तु परन्तु पठितुं शक्नोति वा वित् देवनागरी स्क्रिप्ट् यु केन् री इट् रैट् ओके गुड् गुड् अस्तु भवतः स्वागतं वयम् आरम्भं कुर्मः इदानीम् ऐ शेर् द screen. कुत्र अस्ति अस्माकं विषयः यह, यहा यमु ये यः सः या सा इति विषय स्क्रीन् दृश्यते आं दृश्यते भगिनी दृश्यते दृश्यते अस्तु आ, महादेव महोदय भवान पठति वा यः सः या सा पठत अवगच्छत ततः आरभ्य पठति वा यः लिखति सः लेखक उत्तमम् अनन्तरं या लिखति लेखिका उत्तमम् उत्तमं महोदय अग्रिमं वाक्यं द <coughs> सेकेण्ड् <coughs> वन् <coughs> य कृषि यः कृषिकार्यं करोति यः कृषिकार्यं करोति सः सह, सः कृष कृषकः उत्तमम् या, क्रिश, या गायति सा गायिका योग्यम् <laughs> नेक्स्ट् नेक्स्ट् सेण्टेन्स् यः चित्रं रचयति पठतु यः चित्रं रचयति सः सः चित्रकारः या न्रित्य, या नृत्यं करोति सा नर, नर्तकी उत्तमं महोदय यः पचति सः पाचक या पचति सा पाचिका यः काष्टं तक्षति क्षतः या विक्रयणं करोति सा विक्रयिका पर्याप्तम् उत्तमम् अस्ति महोदय उत्तमम् उत्तमं धन्यवादाः धन्यवादाः अस्तु अत्र किं भवति तत्र लेखकः कृषकः पाचकः तक्षकः अन्तिम इदानीं राधाभगिनी राधाभगिनी भवती वदतु तत्र लेखकः कृषकः पाचकः तक्षकः अन्तिमः वर्णः कः तत्र ये कार्यं करोति तस्य वर्ण न परन्तु अन्तिम लेखक इति शब्दः अनन्तरं कृषकः पाचकः तत्कः सर्वेषु शब्देषु अन्तिमः वर्णः कः पुल्लिङ्गशब्दः लेटर् अस्ति क इति अन्तिमः वर्णः अस्ति तत्र किञ्चित् व्याकरण अंशान् वक्तुम् इच्छामि तत्र अत्र आगच्छति कर्त्रार्थे नुल् प्रत्यय कर्त्रार्थे नुल्प्रत्ययः इत्युक्ते लिखित्वा दर्शयामि तत्र व्याकरण अंशः अस्ति तत्र कर्ता इति अर्थे कर्ता इत्युक्ते कर्ता किं नाम कर्ता ध्वनि न आगच्छति वा इदानीम् आगच्छति आगच्छति तत्र कर्ता किं नाम कर्ता पर्सन् हु डस् दर्ता अत्र किं अभवत् लिख इति धातु मुदतः तत्र नुल् इति प्रत्ययः आगच्छति सर्वेषु स्थलेषु लेखकः पाचकः इति वयं दृष्टवान् खलु तत् नुल् इति प्रत्यये आगच्छति तेन किं भवति नुल प्रत्यये नकार अपगच्छति लकार अपगच्छति भू एतस्य रूपान्तर अध्ये भवति अनन्तरं यथा णकार अपगच्छति अतः तत्र गुण भूत्वा ले भवति इकारस्य ए भूत्वा लेख इति अस्ति व्याकरण अंशः तत्र अस्माकं कृते तत् तस्य पठनम् इदानीं मास्तु परन्तु सर्वेषु स्थलेषु अस्माभिः किं स्मर्तव्यं नुल् इति प्रत्यय आगच्छति लेखकः पाचकः तत्र नुल् प्रत्ययन्तरूपाणि सन्ति तत्र अतः तत्र सर्वेषु स्थलेषु लेखकः इति आगच्छति अनन्तरं पाचकः कृषकः कृषिकार्यं करोति कृषकः एवं भवति अस्तु अत्रापि लेखिक लेखक अनन्तरं स्वीप्रत्ययान्तरूपाणि अथः लेखिका गायकः गायिका राधा भगिनी अत्र नर्तकी इति श्रीलिङ्गिरूपम् पुल्लिङ्गिरूपं किं भवति नर्तकः नर्तकः अत्र तक्षकः श्रीलिङ्गिरूपं किं भवितुमर्हति तक्षिका तक्षिका सत्यं विक्रयिका इति श्रीलिङ्गिरूपं पुल्लिङ्गिरूपं रुपां किं भवति विक्रयिकः विक्रयिकः विक्रयकः विक्रयकः विक्रयकः किञ्चित् तत् तस्यापि स्मरणं भवेत् अथ अत्र तक्षकः इत्युक्ते कः गुट्कटर् सत्यं काष्ठं तक्षति तत् तक्षकः सत्यं कृषकः इत्युक्ते फार्मर् अस्तु अग्रिमं यः अध्यापयति तत् पठति वा आं यः अध्यापयति सः अध्यापिकः अध्याप्याप अध्यापकः या अध्यापयति सा अध्यापिका तत्र पश्यन्तु अत्र किमपि वर्तते अध्यापयति अध्यापयति अत्र यः अध्यापनं करोति इति नास्ति अध्यापयति हा एक एके दिने अहम् उक्तवती खलु तत् पठति पाठयति पाठयति इति वदामः चेत् तत्र किं भवति निच् प्रत्यय भवति प्रे प्रेरय प्रेरय कारय प्रेरणां ददाति यः अध्यापयति अत्र अध्यापनं कारयति यः अध्यापयति सः अध्यापकः या अध्यापयति सा अध्यापिका अस्तु अग्रिमं पठतु अग्रिमं वाक्यं पठतु भगिनी <laughs> यः वाहनं चालयति सः चालकः या यानं चालयति सा चालिका चालिका चालकः वाहनं चलति वाहनं चलति परन्तु चालकः किं करोति वाहनं चालयति कः भेदः स्पष्टमस्ति भगिनी तत्र uh, uh, yeah. प्रेरणार्थे प्रेर निच् एवमस्ति okay. अतः तत्र किं भवति अध्यापक इति अध्यापकः वा अध्या पाठकः अध्या तत्र किं भवति नूल् प्रत्ययः एव अस्ति hmm. परन्तु तत्र निच् अपि अन्तर्भूतः okay. चालयति hmm. निच् इति अन्तर्भूतः चलति चालयति पठति पाठयति एवमस्ति hmm. अग्रिमं पठतु यः निरीक्षणं करोति सः निरीक्षकः याति अत्र एकं वदामि निरीक्षकः निरीक्षकः अत्र धातुः कः रक्षकः अस्ति किल रीक्षकः अत्यन्तमहत्त्वपूर्णधातुः अत्र सर्वे स्मरन्तु अत्र निरीक्षुधातु निर् उपचारक्षुधातोः अर्थने दर्शनम् ईक्षणं करोति इक्ष ईश्वरम् तत्र hmm. इक्ष दर्शने निर् इति उपसर्ग निरीक्षक अतः तत् दीर्घत्वं दृश्यते खलु इदीर्घम् hmm. इक्षदर्शने आत्मनिपदि तु अस्ति तत्र वादिगणतः अस्तु तत् केवलं स्मरणार्थं निरीक्षकः निरीक्षकः निरीक्ष निरीक्षणं करोति अग्रिमं या या, या श्रावयति सः श्रावकः या चिकित्सां प्रथमं वर्तते ओ oh, सोरि या चिकित्सां करोति सा वैद्या चिकित्साम् इत्युक्ते चिकित्सा इत्युक्ते एक्सामिन् ओर्सन् वैद्यया इति लेडि डाक्टर् इति वैद्या श्रावयति सह श्रावकः या कार्यं करोति सा कार्यकर्त्री यः श्रावयति तत्र कः धातुः अन्तर्भूतः वक्तुं शक्नोति वा श्रु धातु अस्ति वा इति धातु श्रावयति सः श्रावकः अत्र या कार्यं करोति सा कार्यकर्त्री तत्री hmm. तत्र प्रत्ययविषये वदतु वक्तुं शक्नोति वा कर्त्री न जानामि अस्तु तत्र तत्र कर्त्री अस्तु काव्यकर्त्री hmm. तस्य पुल्लिङ्गरूपं वदति hmm. वा Uh, कार्यकर्ता कार्यकर्त्री कार्यकर्ता तत्र अस्ति क्रू धातोः क्रू इति धातु डुक्कुयकर्णे इति धातु अतीवमहत्त्वपूर्ण करोति इति डुक्कुयकर्णे इति तत् अनुबन्धाः अपि सन्ति तत्र डुक्कुयकर्णे अत्र तत्र मूल् धातुपाठे डुक्रीय इति अस्ति अनन्तरम् अपगच्छति इडु अपि अपगच्छति क्रू एव अवशिष्यते अत्र क्रू कर्तृशब्दः कथमस्ति क्रू तृच् प्रत्यये आगच्छति तत्र नूल् प्रत्यये अपि कर्त्रार्थे तृच् प्रत्यये अपि कर्त्रार्थे तत्र क्रू तृच् भूत्वा रूपमागच्छति कर्तृ मूलप्रातिपदिकं कर्तृ कस्य रूपं कर्ता मातृ मूलरूपं माता पितृ <गगगाँ> मूलप्रातिपदिकं पिता <गगाँ> भर्तृ मूलप्रातिपदिकं भ्राता <गगाँ> एव तृच्छ् इति प्रत्ययः यः करोति सः कर्ता या करोति सा कर्त्री इत्युक्ते कार्यकर्त्री एवमस्ति या कार्यं करोति सा कार्यकर्त्री स्पष्टमस्ति अस्तु धन्यवादः धन्यवादः अग्रिमे डाक्टर् अम्बिकापतिमहोदय पठति वा उचितपदम् उपयुज्य रिक्तस्थानानि पूरयतु uh, प्रथमं ज्ञा ज्ञातुम् इच्छति सः hmm? जिज्ञासुः या निरीक्षणं करोति सा uh, जिक्षासुः oh, uh, यः निरीक्षणं करोति सः निरीक्षकः इदानीं स्त्रीलिङ्गी कथं भवेत् या निरीक्षणं करोति सा न जिक, यः अत्र पश्यतु यः निरीक्षणं करोति सः निरीक्षकः या निरीक्षणं करोति सा निरीक्षिका निरीक्षिका सत्यं निरीक्षिका अत्रापि इक्ष निरीक्षिका न तत्र यः ज्ञातुमिच्छति सः जिज्ञासु यः पातुमिच्छति सः पिपासुः यः खादितुमिच्छति सा बुभुक्सु यः योद्धुमिच्छति सा सः युयुत्सु एवमस्ति तत्र सन्प्रत्ययान्तरूपाणि सन्ति तत्र जिज्ञासुः पिपासुः बुभुक्षुः युयुत्सुः चिकीर्षुः तत्र सर्वत्र इच्छार्थक् सन् प्रत्ययः अस्ति इच्छार्थक् सन् किं वयं दृष्टवन्तः अद्य दिने नूल् प्रत्यय तत्र क रूपान्तरिक एवं नूल् प्रत्यय अनन्तरं तृच् प्रत्यय कर्तृ भ्रातृ मातृ पितृ तत्र किमस्ति वदतु ज्ञातृ ज्ञातुम् इच्छति इति अस्ति न इच्छार्थ सन् हा ज्ञातुम् इच्छति इच्छा यदा यदा कुत्रापि इच्छा भवति तत्र सन् प्रत्यय आगच्छति महोदय इच्छार्थे सन् तत्र जिज्ञासु इति भवति पश्यन्तु पिपासु तत्र पिपि पकारस्य द्वित्वं दृश्यते तत्र सन् प्रत्ययस्य विशेषता बुभुक्षु तत्रापि द्वित्वं दृश्यते ब ब इति युयुत्सु धर्मक्षेत्रे कुरुक्षेत्रे समवेता युत्सवः इति अस्ति खलु युयुत्सु युयुत्सुः तत्र द्वित्वं दृश्यते यकारस्य अतः तत्र इच्छार्थकसन्प्रत्यय इच्छति या निरीक्षणं करोति सा निरीक्षिका यः निरीक्षणं करोति सः निरीक्षकः एवम् अस्ति अग्रिमम् अग्रिमं करोतु यः शास्त्रं जानाति सः यः शास्त्रं जानाति सः शास्त्रं जानाति शास्त्रं हा प्रयत्नं करोतु शास्त्रासु शास्त्रज्ञ इति अस्ति शास्त्रज्ञः शास्त्रज्ञः शास्त्रज्ञः शास्त्रज्ञः सः शास्त्रं शास्त्रज्ञः यः तन्त्रं तन्त्रं जानाति सः किं भवति शास्त्रज्ञः तन्त्रज्ञः एवं यः विधिं जानाति विधिः इत्युक्ते ला सः किं भवति विधि जानाति विधि विधि इत्युक्ते ला इति लायर् लायर् विधि सम्यक् विधिज्ञः शास्त्रज्ञः तन्त्रज्ञः विधिज्ञः यः मन्त्रं जानाति सः मन्त्रज्ञः मन्त्रज्ञः एवम् अस्ति एतादृशानि रूपाणि सम्भवन्ति सम्यक् अग्रिममस्ति तत् यः तन्त्रं जानाति या तन्त्रं जानाति सा किं या तन्त्रं जानाति सः तन्त्रज्ञा तत्र तान्त्रिक इति अस्ति खलु तस्य पुल्लिङ्गिरूपं तन्त्रि तान्त्रिकी इति भवति तान्त्रिकीज्ञा हा तान्त्रिज्ञा इति नास्ति तान्त्रिकी इति तत्र ठक् प्रत्ययः आगच्छति तान्त्रिकी इति तान्त्रिज्ञः वदतु कृपया तान्त्रिकी इति ठक् प्रत्यय तत्र आगच्छतु तन्त्रं जानाति अग्रिमं करोति वा यः क्रीडति क्रीडति सः क्रीडि क्रीडन्याः क्रीडति अत्र पश्यन्तु भेदः कः यः क्रीडां जानाति इति अस्ति वा यः hmm. क्रीडां जानाति सः क्रीडति इति वक्तुम् परन्तु यः क्रीडति स्वयं क्रीडनं करोति कर्ता अस्ति क्रीडनस्य तदा किं भवति क्रीड क्रीडज्ञः स्वयं क्रीडा अत्र लिखति सः लेखकः कृषिकार्यं करोति सः कृषकः पचति सः पाचकः काष्ठं तक्षति सः तक्षकः क्रीडां करोति यः क्रीडति सः mm, क्रीडकः सम्यक् उत्तमं क्रीडकः क्रीडां करोति सः क्रीडकः उत्तमम् अग्रिमम् सः सिञ्चति सः सिञ्च सिञ्चतः सिञ्चकः सम्यक् सिञ्चकः तत्र क्रीडति क्रीडविहारे इति धातु सिञ्चति सिञ्च क्षरणे इति धातु सिञ्चनं करोति स्प्रिङ्क्लिङ्ग् इति यः सिञ्चति उद्याने सिञ्चनं करोति सः सिञ्चकः पाठयति सः पाद पाठयति पाठकः पाठकः सम्यक् अत्र करोतु या शिक्षयति या शिक्षयति सा शिक्षिका शिक्षिका सम्यक् याजिका याजिका उत्तमं महोदय नयति किं या नयति सा नायिका तत्र इति धातु अस्ति अस्तु अस्तु नयति टु केरि अस्तु अस्तु धन्यवादः अस्तु धन्यवाद महोदय अवश्य महोदय भवान् पठति वा अस्तु भगिनी उदाहरणं दृष्ट्वा एते के इति लिखतु गायकः यः गायति सः गायकः धारकः यः धारति सः धारकः सम्मति यः धरति ध्रुव इति धातु ध्रुवधरणे यः धरति सः धारकः अग्रिमे hmm. धारकः यः धारति यः धारति सः धारकः धारकः विषये किमुक्तवान् भवान् हारकः धारक धारकः अनन्तरं द... हारकः यः इति धातु हरणं करोतु हरति यः हरति सः हारकः अग्रिमे सः वाहकः उत्तमम् अनन्तरम् उत्पादकः यः उत्पादयति सम्यक् बहु सः सः उत्पादकः सम्यक् अग्रिमम् <laughs> याजकः यः यजति सः याजकः hmm. hmm. सम्यक् उत्तमम् अग्रिमं दाहकः यः दहति सः दायकः सम्यक् उत्तमम् अग्रिमं <coughs> बोधकः <कहा>। यः <याँ coughs> सः बोधा, बोधकः नो चेत् तत्र नीचभाव अपि भवितुं शक्नोति इत्युक्ते यः बोधयति सः अपि बोधकः mm. एवं तत्र रूपद्वयम् अत्र बोधनम् अपि बोधनं तेन भवति वा बोधनं कारयति एवं बोधकः एव रूपं बुध अवगमने इति दातु महादिगणितम् अग्रिमम् अध्यापि अध्यापिका सत्यं या अध्यापयति सा अध्यापिका उत्तमं महोदय अत्र एकः प्रश्न अध्यापिका तत्र कर्तार्थे अनन्तरं प्रत्यागच्छति अध्यापकः भवेत् नूल् प्रत्ययः तत्तु सर्वं योग्यं परन्तु तत्र नीच् अपि अस्ति यथा अहम् उक्तवती अध्यापनं कारयति पाठनं कारयति पठनं कारयति एतत्सर्वमस्ति परन्तु अध्यापिका वा अध्यापिका तत्र मूलधातुः कः परन्तु मूलधातु अन्य कोऽपि जानाति वा महत्त्वपूर्णधातु अस्माकम् अनन्तरं गीतासोपाने तत्र एषः धातु भगवतः वारं वारम् उपयोजति तत्र हा पश्यन्तु <laughs> अधि इति उपसर्ग अधि इति उपसर्गपूर्वक इङ्ग् अध्ययने इति धातु इङ्ग अध्ययने अधि उपसर्ग इङ्ग् अध्ययने आल्वेस् कम्स् वित् अधि इति उपसरति मकारस्य इति भूत्वा इ एव अवशिष्यते इङ्ग् अध्ययने इण् गतौ इकस्मरणे तत्र मनसि पर्मनण्ट्लि स्थापितव्यम् इति अहं वदामि फारेवर् इङ्ग् अध्ययने इकस्मरणे इण गतौ इण गतौ अतीवमहत्त्वपूर्णम् इण गतौ अपि इङ्ग् अध्ययने इकस्मरणे सर्वे तत्र धातुत्रयम् अतीवमहत्त्वपूर्णम् तत्र इङ् इति उपसर्गपूर्वक अध्ययनं यत् वयं वदामः तत् अधि इति उपसर्गपूर्वक इ स्मरणं भवति इक् स्मरणे गति इण्तौ जयन्तिभगिनी तत्र अतीतः इति शब्दं स्मरति वा अतीतः इत्युक्ते इण् गतौ इति धातु अस्ति तत्र अतीत इति शब्द अतीत उपसर्ग इ सर्वेषु स्थलेषु तत्र इ एव रूपम् परन्तु अर्थदृष्ट्या तत्र महद्भेदः अस्माभिः स्मर्तव्यम् अस्तु तत् कुत्र अस्ति अध्यापिका अग्रिमे लेखिका लेखिका या लेखयति या या लिखति लिखति सा लेखिका या लिखति अहं लिखामि सः लिखति यः लिखति सा लिखति लिखति सर्वत्र तत्र लिख इति दातु लिखति एव भवति लेखिका न भवति एवम् अस्तु पर्याप्तमस्ति महोदय धन्यवादाः धन्यवादः धन्यवादः अग्रिमे दायिकातः विना भगिनी करोति वा हा भगिनी दायिका इत्युक्ते किं भगिनी दायिका दायिका इत्युक्ते दा दाने इति धातु अस्ति दा इति दाने दानमानं कर्तुं शक्नोति वा या वा। या दानयति वा या ददाति या ददाति या ददाति सा दायिका सम्यक् दायिका ददा वाचिका वाचिका वाचिका या वचनं करोति वा या वदति या वदति या तत्र तत्र पश्यन्तु वदति वच तत्र वच इति एक एकः धातु वद इति एकः धातु ब्रू इति अपि एकः धातु ब्रुते इति शब्दप्रयोगः तत्र अस्ति तद् ब्रू अपि अस्ति वच अपि अस्ति वदति अपि अस्ति या वदति या वक्ति वच धातोः रु वक्ति या वदति या ब्रवीति वक्ति, या वक्ति या वक्ति या वदति या ओर् या बृति या ब्रवीता अग्रिमदर्शिका या दर्शयति सम्यक् दर्शयति नो चेत् तत्र अत्र पश्यन्तु तत्र नूल् अपि नूल् तु एव नूल् प्रत्यये परन्तु निच्प्रत्यये अपि भवितुम् अर्हति या दर्शयति नो चेत् निच्प्रत्यय नास्ति चेत् या पश्यति सा अपि दर्शिका दर्शनं स्वयम् एव दर्शनं करोति वा दर्शनं कारयति अग्रिमं नर्तिका या नृत्यति या नृत्यति सा नर्तिका अग्रिमे कारिका या या कारिका या कारयति वा कारयति कारय या कारयति सा कारिका करोति इति कर्ता कारयति इत्युक्ते कारकः श्रीलिङ्गे रूपं कारिका एवं अस्तु भगिनि अस्तु उत्तम द्वितीय अंश तत् अस्चित आ... आरंभ कू्रिमे वर्गे तत्प्य अस्कम स्टो कथा अस्सी तक यहां इदानमस्क युटुबसबंधशब्द अन गीता सोपन गीतासोपानं प्रथमः भागः एतादृशः क्रमः अस्ति अस्माकं यत् तत्र अंशतः अध्ययनम् अध्यदिने कुर्मः यत् तत् अस्तु जयन्ती भगिनी आरम्भं करोति वा <coughs> आं मेनि यत् अवगच्छत च भारते यत् संस्कृतज्ञानम् अस्ति तत अन्यत्र नास्ति चन्दनस्य काष्ठे गन्धस्य माधुर्यं यदस्ति तत् अन्यत्र नास्ति भारते यत् वास्तु वास्तुशिल्पम् अस्ति तत् अन्यत्र नास्ति भारते यत् वातावरणम् अस्ति तत् उत्तमम् उत्तमम् उत्तरभारते यत् शैत्यम् अस्ति तत् दक्षिणभारते नास्ति इत्युक्ते अवगमनार्थं तत् अवगमनं भवति वा यत् तत् अत्र um, आं बेणी समान um, लिङ्गं भवति तत्र ऐ मीन् I mean, लिङ्गम् इत्युक्ते विपक्तिरूपं समानं यत् तत् ऐ मीन् फ्रेज् फ्रेज् इति वदामि चेत् mm -hmm. um, वक्तुं न शक्य ऐ मीन् मैण्ड् मैण्ड् मैण्ड् अस्ति मनसि अस् अस्ति बेहिनी वक्तुं न आङ्ग्लभाषायां वदतु चिन्ता मास्तु आङ्ग्लभाषायां वदतु तदेव ऐ मीन् मनसि अस्ति यत् वक्तुं न शक्नु शक्नोति अस्तु चिन्ता मास्तु चिन्ता मास्तु अत्र पश्यन्तु यत् नीङ्गी नपुस्तकलिं परन्तु अत्र किं तत्र रचनाकारः किं वक्तुमिच्छति यत् यत् मात्रानुसारेण संस्कृतज्ञानं भारते अस्ति तावत् तत् मात्रानुसारेण अन्यत्र नास्ति इति वदति काष्ठे गन्तस्य माधुर्यं यत् अस्ति Hmm. मात्रा इति अन्येषु काष्ठेषु गन्धस्य तावत् माधुर्यं माधुर्यं नास्ति अस्तु भगिनि भारते यत् वास्तुशिल्पमस्ति तत अन्यत्र नास्ति इत्युक्ते भारते वास्तुशिल्पस्य <us> उत्कृष्टता इति रचनाकारः वदति वक्तुं शक्यते भवा कम्पेरिजन् इति वक्तुं शक्यते वा कम्पेरिज़न् इति तुलनात्मकदृष्ट्या तत्र सत्यं तुलना तादृशं तादृशं हा यादृशं तादृशं यादृशं तादृशं यत् तत् इति रूपं अन्यतम् वातावरणं तदेव उत्तमं शैत्यं तत्र शैत्यं शैत्यम् उत्तरभारते अधिकमात्रे अनुसारणम् अस्ति अधिकमात्र तावत् दक्षिणभारतेन एवं वाक्यप्रयोगः अस्तु धन्यवादः धन्यवाद रमणीभगिनी भवती पठति वा यद्यपि तथापि यद्यपि तथापि पठत अवगच्छत च अलसाः दृढकायाः ते कार्यं न कुर्वन्ति यद्यपि अलसाः दृढकायाः तथापि ते कार्यं न कुर्वन्ति यद्यपि तथापि प्रथमं वाक्यं रमणीभगिनी भवती पठितवती यद्यपि अलसाः दृढकायाः तथापि ते कार्यं न कुर्वन्ति इत्युक्ते किम् अत्रापि कम्बेसन्सन् वदतु अलसाः दृढकायाः अस्ति तथापि ते कार्यं न कुर्वन्ति दृढकायाः अर्थात् शक्तिमन् अस्ति हा हा तथापि ते कार्यं न कुर्वन्ति इत्युक्ते यदि तर्हि यद्यपि तथापि कनेक्टिङ्ग् बर्ड्स् इवन् दो अलसाः दृढकाय विनोदश ते कार्यं न कुर्वन्ति एषः भावः यद्यपि तथापि यदि तर्हि यदा तदा यदा तदा तत्कालस्य विषये परन्तु अत्र यद्यपि तथापिवन् दो दीनां अग्रिमं वाक्यं पठतु अहं योगासनं करोमि मम तृप्तिः नास्ति hmm. यद्यपि अहं योगासनं करोमि तथापि मम तृप्तिः नास्ति यद्यपि अहं करोमि तथापि मम तृप्तिः नास्ति किमपि भवेत् तत्र मनसः दृढीकरणं नास्ति शान्ति नास्ति अतः तृप्तिः सन्तोषः सन्तोषः सत्यं सत्यम् अग्रिमम् सा प्रश्नान् पृच्छति सा न अवगच्छति यद्यपि सा प्रश्नान् पृच्छति तथापि सा न अवगच्छति प्रश्नान् तु पृच्छति परन्तु न अवगच्छति अवगच्छति अर्थः अवगच्छति इत्युक्ते आकलनं न भवति अण्डर्स्टेण्डिङ्ग् न भवति बहवः प्रश्नाः मनसि सा प्रश्नान् पृच्छति परन्तु तस्याः अवगमनमेव न भवति तस्याम् अर्थं न अर्थम् अर्थं न अवगच्छति प्रश्नस्य अग्रिमम् अग्रिम वृष्टिः सम्यक् आसीत् कृषकः सन्तुष्टः नासीत् यद्यपि वृष्टिः सम्यक् आसीत् तथापि कृषकः सन्तुष्टः नास्ति कृषकः तत्र वृष्टिः सम्यक् अभवत् परन्तु तथापि कृषकः सन्तुष्टः सन्तोष सन्तोषवान् तत्र किमपि भवेत् तत्र कारणं न जानीमः परन्तु सन्तुष्टः नास्ति यद्यपि सृष्टिः सम्यक्रीत्या अभवत् परन्तु तर्हि तथा कृषकः सन्तुष्टः हा। अग्रिम अग्रिमछात्राः नियमं जाना जानन्ति ते उल्लङ्घनं कुर्वन्ति यद्यपि छात्राः नियमं जानन्ति तथापि ते उल्लङ्घनं कुर्वन्ति नियमपालनं hmm. न कुर्वन्ति ah. ते <laughs> जानन्ति परन्तु उल्लङ्घनं कुर्वन्ति ah, nah, तर... नियमान् सर्वे जानन्ति परन्तु पालनं न कुर्वन्ति उल्लङ्घनमेव कुर्वन्ति oh, okay. अस्तु इदानीं यत् यत् तत् उपयुज्य वाक्यानि लिखतु अग्रिमे वर्गे वयं कुर्मः इदानीम् अस्माकं कथायाः सूर्यः कथां पठामः धन्यवादः भगिनी अत्र अस्ति अस्माकम् अध्ययन धन्यवादः भारतमहोदय कथायाः आरम्भं करोति वा आं भगिनि <laughs> Okay. खलु पाराय ईर्षादयः <laughs> ईर्षा ईर्षा इत्युक्ते स्पर्धा ईर्षा मत्सरः आदयः ईर्षा आदयः गुणाः तत्र आदयः गुणा इत्युक्ते ईर्षा भवति अनन्तरं लोभः भवति मत्सरः भवति स्पर्धात्मक स्पर्धात्मकदृष्टिकोनः भवति ईर्षादयः आदि ईर्षादय आदि आदयः खलु भाराय भाराय तत्र अस्य चतुर्थी विभक्ति भाराय भार इत्युक्ते किं महोदय जानाति वाथिङ्ग् वेट् सम्थिङ्ग् हैवी वेट् अत्र अथः ईर्षा आदयः गुणानां भारमेव भवति तत्र किमपि प्राप्ति भवति वा प्राप्तिः अस्ति वा नास्ति ना। भार इति कथा वदति पश्यामः पठति कदाचित् कदाचित् कश्चन महात्मा प्रवचा प्रवचनावसरे शिष्यान् अवदत् यावतां विषये भवताम् ईर्षा कोपो वा या तावन्ति आलुकानि आनेतव्यानि आनेतव्यानि एकैकस्य उपरि त तस्य नाम लिखितम् भवेत् इति इत्युक्ते किम् आलुकम् आलु, इत्युक्ते <सवाँ> आलु, अलुकम् इति आलुकम् एकपक्षान्त आलुकानि बहूनि तत्र आलुकम् इत्युक्ते किं शाकानि नामानि स्मरति वा पोटेटो किं वदति महात्मा शिष्यान् किं वदति यावतां विषये भवताम् इषा कोपो वा स्यात् तावती आलुकानि आनेतव्यानि यावतां विषये भवताम् इषा अस्तु अत्र किम् अस्ति पश्यन्तु तावन्ति आलुकानि यावत् तावत् विषये अत्र वाक्यरचना अस्ति आलुकानि हा यावतां विषये भवताम् ईर्ष्या पश्यन्तु तत्र वर्गे केचन छात्राः सन्ति तत्र गणेशः नाम्ना एकः छात्रः सः रमेशः रमेशस्य विषये तस्य मनसि ईर्षा अनन्तरं विराजस्य विषये तस्य मनसि कोपः अनन्तरं तत्र माला आस् अस्ति तस्याः विषये तस्य मनसि क्रोधः अत्र यावतां विषये भवतां मनसि ईर्षा कोपः वा स्यात् तावन्ति आलुकानि अत्र एकम् आलुकं स्वीकृत्य तत्र अस्तु रमेशस्य मन् मम मनसि क्रोधः आलुकं स्वीकृत्य रमेशः इति एकम् आलुकम् द्वितीयं तत्र अस्ति माला तस्याः विषये मम मनसि क्रोधः आलुकं तस्य नाम तस्य उपरि तस्य उपरि नाम माला एवमस्ति okay. एकैकस्य उपरि तत्तस्य नाम लिखितं भवेत् अवगतम् right. आम् किं करणीयं महात्मा शिष्यान् अवदत् भवतां ईर्षा भवेत् तस्य विषये अपि ईर्षा वा कोपः वा मत्सरः वा क्रोधः वा भवतु नाम तावन्ती तावन्ती आलुकानि आनेतव्यानि एकैकम् आलुकं स्वीकृत्य तस्य उपरि नाम लिखितु तेषां नामानि लिखन्तु एवम् अस्तु स्पष्टम् Yeah. अग्रिम अनन्तरदिने जनाः आलुकानि स्वीकृत्य आगताः एकेन पश्च आनी आनीतानि अन्येन दश अपरेण इतो, इतो इतो इतो Hmm. महात्मन, महात्मन् महात्मनः पुरतः आलुकानि आनीय स्थापि स्थापितानि सर्वे सर्वैः सर्वैः इति सर्वैः किमभवत् अत्र अनन्तरदिने अनन्तरदिने hmm. जनाः hmm. आलुकानि स्वीकृत्य hmm. Hmm. तत्र सर्वे छात्राः आलुकानि स्वीकृत्य तत्र गच्छन् द्वितीये दिने अनन्तरदिने तत्र किमभवत् एकेन एकेन पश्च पश्च पञ्च पञ्चै फैके पञ्च आलुकानि अन्येन अन्येन दश दश आलुकानि दश आलुकानि अपरेण इतोऽधिकानि इत्युक्ते दशाधिक अपि आलुकानि सन्ति तत्र अपरेण अत्र भावना भावनायाः प्रदर्शनम् कोपस्य प्रदर्शनम् ईर्षायाः प्रदर्शनं क्रोधस्य प्रदर्शनं पञ्च आलुकानि दश आलुकानि इतोपि अधिकानि आलुकानि महात्मनः पुरतः आलुकानि आनीय स्थापितानि सर्वैः पश्यन्तु अत्र आलुकानि सन्ति महात्मनः पुरतः सर्वाणि आनीतानि आलुकानि अस्तु पर्याप्तं धन्यवादः धन्यवादः इतपर्यन्तः प्रश्नाः सन्ति वा स्पष्टमस्ति इतपर्यन्तम् अस्ति अग्रिमं राधाभगिनी पठति वा ततः महात्मा ततः आरभ्य पठति वा भगिनी अतः महात्मा अवदत् येन येन यावन्ति आलुकानि आनीतानि तेन तेन तावन्ति एकस्मिन् स्यूते स्थापन् स्थापनीयानि <imlin> एकनिमिषम् अत्र रचना पश्यन्तु अद्यदिने वयं पठितवन्तः यः सह या ता तथैव अत्र येन तेन यावन्ति तावन्ति येन आलुकानि आनीतानि येन यावन्ति आलुकानि आनीतानि तेन तावन्ति एकस्मिन् स्तुते स्यूते uh, uh, uh. स्थापनीयानि इत्युक्ते अर्थः कः राधा भगिनी स्थापनीयानि uh, yeah. yeah. छात्राः आलुकानि आनयति आनीत आनीतानि तेन स्यूते स्थापित स्थापितानि इति स्थापयन्तु इति अग्रिमं वाक्यं पठतु सप्ताहं सप्ताहं यावत् सः आलुकस्यूतः स्कन्दे दर्तव्यः शयनसमये भोजनसमये वा पार्श्वे स्यात् इति ओके किन्तु वित् इन् अ वीक् सप्ताहः यावत् सः आलुकस्यूतः स्कन्दे धर्तव्य दे केरि दि आलुक स्यूत् आन् दे शोल्डर्स् सम्यक् स्कन्दे इति शयनसमये शयनसमये भोजनसमये वा पार्श्वे स्यात् वेन् देवर् स्लीपिङ्ग् ओर् ईटिङ्ग् दे वुड् कीप् नेक्स्ट् इत्युक्ते सामान्यतया सर्वदा भवेत् सप्ताहं यावत् परिसमाप्तिपर्यन्तं यावत् सप्ताह प्रचलति तावत् यावत् तावत् येन तेन यावत् भवन्ति यः सः यद्यपि तथापि एवं आर् कनेक्टिङ्ग् वर्ड्स् इति किं करणीयः तत् स्कन्धे एव धर्तव्यः समये, भोजन भोजनसमये वा अन्यस्मिन् समये समय अपि सदा सर्वदा आलुकसूतः समीपः इति स्थिति अग्रिमेतत् yeah. uh, किमर्थं करणीयम् इति hmm. कोऽपि को, केनापि न नोबडी ज्ञातं uh, ah. ah. yeah. किमर्थं uh, ते uh, करणीयं ते न जानाति ah. तथापि महात्मनः आदेशं तिरस्कृतं तिरस्कर् कर्तुम् अशक्नुवन्तः mm -hmm. ते आलुकानि वहन्तः सप्ताहं यापितवन्तः mm -hmm. महात्मानस्य आदेशः पालनं करणीयं तत्कारणं आलुकानि च स्यूतः धर्तव्यम् एकसा पर्यन्तं अत्र प्रत्ययस्य विषये एकं वदामि अशक्नुवन्तः वहन्तः यापितवन्तः यापितवन्तः इति तव तु प्रत्ययः तु अशक्नुवन्तः वहन्तः तत्र अस्ति शत्रुप्रत्ययः hmm. ते सर्वे कीदृशाः आदेशम् तिरिस् तिरस् तिरस्कर्तुम् अशक्नुवन्तः hmm. आलुकानि वहन्तः ते सर्वे एतादृशाः किं कृतवन्त एवमस् तद् तदभ्यन्तरे कानिचन आलुकानि पर्युषितता पर्यु पर्युषिततां mm -hmm. प्राप्य दुर्गन्धं प्रसारयन्ति स्म किमभवत् mm. mm. mm. mm. आलुकानि च दुर्गन्ध अभवत् स्मेलिङ्ग् कानिचन आलुकानि नष्टानि अतः तत्र दुर्गन्धं दुर्गन्धस्य प्रसारणम् अभवत् अभवत. तस्मात् अग्रिमं भारकारणात् भारकारणात् कारणतः आदिनं तेषां वहनमपि कष्टाय भवति स्म तथापि कष्टेन सर्वं सोढं द हेविनेस् आफ् द पटेटो आल्सो वास् गिविङ्ग् देम् डिफिकल्टि भारणेन कष्ट जातः तदापि कष्टेन सर्वं सोढं इवन् देन् देवर् आल् क्यारिङ्ग् इट् ऐ थिङ्ग् रैट् सोडं वाट् इस् द मिनिङ्ग् आफ़् सोडम् सोढम् इत्युक्ते तत्र असह्यता गुरु आज्ञा गुरु आज्ञा पालनीया तत्र तिरस्कारणं न भवेत् इति अतः सर्वं जस्ट् बेरिङ्ग् आल् देट् अस्तु पर्याप्तं धन्यवादः भगिनि धन्यवादः एतादृशी स्थितिः अत्र अस्ति अग्रिमं किं भवति तत् पश्यामः महादेव महोदय भवान् पठति वा अस्ति वा महादेव महोदय तत्र भवान् पठितुं शक्नोति महादेव महोदय नास्ति अत्र अस्तु अम्बिकापतिमहोदय भवान् पठति वा सप्ताहानन्तरं तथा आरभ्य सप्ताहानन्तरं गुरुः तान् सर्वान् आहूतवान् आलोकस्य आलो आलोकस्यूतान् मम पुरतः स्थापयन्तु भवन्तः इति अवदत् गुरुणा तदा उक्तं तदैव कृतवन्तः सर्वे hmm. आलुक् आलुकस्यूतः स्कन्धात् अपग अपगतः इत्यतः इत्यतः नितरां सन्तुष्टाः आसन् ते किमभवत् hmm. अत्र सप्ताहानन्तरं सप्ताहानन्तरं गुरुः तान् सर्वान् आहूतः हि कोल्ड् द एट् द एण्ड् आफ़् दीक् हि कोल्ड् एव्रिबडि सम्यक् आलुकस्यू आलुकस्यूतान् मम पुरतः स्थापयन्तु भवन्तः इति अवदत् सो पुटिङ्ग् आन् मै शोल्डर्स् आल् द पोटेटो बेग्स् गुरुणा यथा उक्तं तदैव कृतवन्तः सर्वे सो देस् अत्रापि पश्यतु यथा तथा यथा एवं गुरुणा यथा उक्तं तथा एव सर्वे कृतवन्तः यथा तथा जायनिङ्ग् बर् अग्रिमे आलोक आलोकस्युतः स्कन्धात् अपगतः इतरां सन्तुष्टाः आसन् ते वा सेटिस्फैड् आलोकस्यूतः स्कन्तात् अपगतः डौन् फ्रोम् द शोल्डर्स् अपगतः अप इति उपसर्ग गतः इति कः प्रत्यान्तरूपं गम् धातोः कृते अपगतः अपगच्छन्तः अपगच्छति अपगतः अपगच्छति इति टिङ्पम् अपगत इति टरूपम् इत्यतः नितरां सन्तुष्टाः आसन् ते अग्रिमम् एकं वाक्यं पठतु अनन्तरम् अवस्तु महोदय गुरुः तान् अवदत् सप्ताहात् सप्ताहात्मककालावर्ध वर्धै वधौ कालावधौ आलुकानां वह वहनं भाराय अवदत् अभवत् इत्युक्ते सप्ताह काला तत्र किमस्ति सप्ताहात्मककालावधि तस्य सप्तम्यन्तरूपं कालावधौ इट् इस् ड्यूरिङ्ग् देट् वीक् पीरियड् सप्ताहात्मककाल वर्षात्मककाल मासात्मककाल सप्ताहात्मककालावधि तस्मिन् काला सप्ताहात्मक आलुका वहन भारा अभव कहत नक्वं तुते अतीव कष्ट प्रद अतीव भारयुक्त हाँ हा। सप्ताह हा सप्ताहत्मक हा काल परंतु तस्मिन्नपि आलुकानां वहनं भाराय एव अभवत् कष्टकर एव अभवत् पीडादान् पीडादायक अभवत् इति भाराय कष्टाय पीडादायक एवं अस्तु धन्यवादः महोदय अग्रिमम् ओगस्ट् महोदय भवान् पठति वा तेभ्यः यः अस्ति वा ओगस्ट् महोदय नास्ति अस्तु विना भगिनी पठति वा हा भगिनी भगिनि द बिगिनिङ्ग् इस् तेभ्यः अत्र तेभ्यः यः नौ इट् इस् ओके तेभ्यः यः दुर्गन्धः निस्सरति स्म स तु अस असह्यः आसीत् इत्युक्ते इत्युक्ते फ्रोम् तेभ्यः दुर्गन्धः वदतु वदतु तेभ्यः दुर्गन्धः आसीत् निस्सरति निस्सरति इत्युक्ते स्मेल् सम्यक् सम्यक् स्रु इति धातु अस्ति स्रु निर् उपसर्ग सरति निस् उपसर्ग स्रु धातु औट् स तु असह्यः आसीत् या इट् वास् अन्वेरेबल् सोढुं न शक्नुवन्तः इति ओके सोढुं न शक्नुवन्तः ओके इदानीं भारस्य दुर्गन्धस्य च अपगमनात् नितरां सन्तुष्टचित्ताः सन्ति भवन्तः किं वदति गुरु इदानीम् भारस्य दुर्गन्धस्य च भारस्य च दुर्गन्धस्य अपगमनात् नितरां सन्तुष्ट Uh, even though it was smelling and heavy, mm -hmm. uh, the students... In the city, they said, Durgandha, Apagachyati, Bharapi, Apagachyati, Apagamanaat. They said, Gamanam, Apagamanam. Now they got rid of everything. Guroho, Purath, Thapanam, Abhavat, इदानीं uh -huh. भारस्य अपगमनम् अभवत् दुर्गन्धस्य uh -huh. अपगमनम् अभवत् अतः सर्वे नितरां सन्तुष्टचित्ताः सन्ति भवन्तः भगिनि अस्तु किम् अभवत् पश्यन्तु अत्र गुरुः तान् अवदत् साप्ताह सप्ताहात्मककालावधौ आलुकानां वहनं भाराय अभवत् तत्र साप्ताहस्य कृते तद्भारवहनं सर्वेषां कृते तत् अभवत् गुरु आज्ञया अनन्तरं गुरोः पुरतः तत्र आलुकस्यूतान् तेषां स्थापनमपि अभवत् इदानीं स्थितिः का पीडा अपगच्छति भारः अपगच्छति सन्तुष्टचित्ता भवन्तः सर्वे भगिनी अग्रिमं वाक्यं महत्वपूर्णं पठतु किमस्ति ईर्षाकोपादयः अपि आलुकानि इव इत्युक्ते इत्युक्ते आल् द ईर्षा पीपल् आर् लैक् आलुस. इत्युक्ते मनसि अस्माकं मनसि ईर्ष कोपः लोभः क्रोध, आलुकानि इव अग्रिमं किमस्ति तान् तान् आजीवनं वहामः वयं वयं किं कुर्मः जीवनस्य जीवना जीवनात् सम्पूर्णजीवनम् आजीवनम् एवं वा Yeah, it is. <laughs> it is showing somewhere else. Oh. Question 2, Athra, Drishyate? Tan Ajiwanam. Yeah, it is a name, Drishyate, Bhagini. Ha, ha. Patatu, patatu. Tan Ajiwanam Vyam Vahama. Vyam Kim Vahama, Bhagini? Um. सम्यक् एते सर्वे दुर्गुणाः तत्र भावना तु भवेत् परन्तु ईर्षाभावना वा कोपभावना वा क्रोधभावना लोभभावना मदमत्सर यथा भवती उक्तवती तत् आजीवनं वयं वहामः वि आर् carrying the वण्डर्स् of that. जीवनपर्यन्तं वहामः आजीवनम् अस्तु भगिनि ततः निर्गच्छन् ततः निर्गच्छन् दुर्गन्धः आन्यात् पीडयति अन्यान् पीडयति अन्यान् पीडयति सारी किं भवति ततः निर् निर्गच्छन् दुर्गन्धः दुर्गन्धः विच् वास् कमिङ्ग् फ्रोम् द पोटेटो बेग्स् वास् बादरिङ्ग् एव्रिबडि अन्यान् पीडयति वयमपि आजीवनम् ईर्ष्याभावना कोपभावना क्रोधभावना वहामः सदैव वहाम तस्मात् दुर्गन्धः अवगच्छति अन्यान् पीडयति यदा कुत्रापि अहं गच्छामि मम मनसि क्रोधभावनया क्रोधभावना यदा भवति चेत् किं भवति अन्या एवं भवति खलु क्रोधभावनया स यत्र यत्र कुत्र अहं गच्छामि तत् अन्येषां कृते पीडा एव अन्येषां कृते सहजता पीडयति किन्तु अग्रिमं किन्तु किन्तु वयं तत् न अवगच्छामः अन्तिमं तत् पठतु अनन्तरं जयन्ति भगिनी त्यज्येरन् यदि ये त्यजेरन् तर्हि आकुलत्यागादिव महति सन्तृप्तिः भवेत् यदि ते त्यज्येरन्ते त्यज्येरन् इति विधिलङ्गेरन् यदि तेषां त्यजनं भवेत् त्यागं भवेत् तर्हि आलुक इव यथा सर्वे आलुकत्यागा यहालुकागम भूवा सर्े सतुष्ट तथा एक वह त्य महती सतृप्ति सतृप्ति भवपसर्गपूर्वक सतृप्ति सर्वोपहारी तृप्तिः तत्र समाधान अतीव समाधानकारी भवेत् चिन्तयतु हा एषः अस्ति सः पञ्चवर्षपूर्वे मां पीडां दत्तवान् आसीत् तत् आलुकम् एव मम मनसि सदैव यदा अस्ति चेत् किं भवति तृप्ति मन न अन्येषां कृते तत् पीडादायि एव सदा सर्वदा यदहं तथैव अहं वदामि यदा एषः एवमेव एषः एवं कृतवान् सः मम स मम कृते एवं न कृतवान् मम किमपि न दत्तवान् एवम् एतादृशी भावना यदि मनसि आगच्छति तदा तृप्तिः तत्र न शिष्यति सत्यं भगिनि सत्यं सत्यं धन्यवाद भगिनि अग्रिमं धन्यवादः विना विना जन्ति भगिनी भवती पठति वा यदि शक्यं तर्हि पठामि भव भगिनी यदि शक्यं तर्हि सर्वान् प्रीत्या पश्यत यदि शक्यते चेत् सर्वान् प्रीतया पश्यामः तदा प्रीत्या इत्युक्ते प्रीत्या इत्युक्ते प्रिय प्रियेण ीत्या प्रेम प्रेमभावनया पश्यामः प्रीतिपूर्व मनः सन्तुष्टं शान्तं भाररहितं च स्यात् तदा प्रीत्या प्रेमतया पश्यति चेत् मनसि सन्तुष्टं शान्तं भाररहितम् अपि भवति भवन्ति तत्र एकम् एकं वयं सर्वे सर्वे कुर्मः अस्तु एकः कोऽपि अस्ति तस्य विषये मम मनसि क्रोधभावना एकस्मिन् स्थले एकस्मिन् क्षणे एव अहं तत् त्यजामि चिन्तयतु अस्तु मम मनसि तत् क्रोधः अस्ति एवं कृतवान् आसीत् पूर्वस्मिन् दिने परन्तु इदानीम् एकस्मिन् क्षणे मम किमपि नास्ति नास्ति मनसि एव अहं कृतवती सन्तुष्ट्री भवति निर्मलं भवति मनसि स्वच्छता भवति सम्यक् अग्रिमेषाद्वेषादिकं परित्यक्तं चेत् जीवनं स्वच्छं निर्मलं च स्यात् तदेव अत्र दत्तवन्तः बेनि एषा द्वेषा मोक्षम् मदमाश्चर्यं सर्वं त्यज त्यजामि चेत् मनसि जीवनं स्वच्छम् अस्माकं जीवनं स्वच्छता भवति निर्मलता भवति इति यदि एषा बेनि सत्यं सत्यम् इति वदामि यदि ईशाद्वेषादिकं सदा मनसि स्थापयेम तर्हि mm. मनसः अस्वस्थम् अस्वस्थ्यं ततः जीवनस्य दुर्गतिः च भवेत् इति mm. यदा mm. न त्यक्ताम चेत् तत् तक, त्य त्यक्तामः चेत् mm. मनसि सर्वदा दुर्गति त्य मनसि अस्वस्थम् अस्वास्थ्यं भवति mm. जीवनस्य mm. पर्यन्तम् दुर्गती च भवति इति भवता युक्तमेव उक्तम् महोदय परिण परिणामम् परिणामम् अवि अविदित्वा ईश्वाद्वेषादीनम् ईश्वा ईशाद्वेषादीन् वहन्तः वयम् जीवनस्य व्यर्थताम् कल्पयन्तः भवामः इति अवदत् कश्चन भक्तः इत्युक्ते यदा महा ऐ मीन् गुरु उक्तवा तदेव सत्यम् इति सर्वे वदन्ति परिणामम् अविदित्वा ऐ मीन् परिणामम् अवतीत्वा आजीवनं वहन्तः वयं जीवनस्य व्यर्थताम् कल्पयन्तः यदि वयम् आजीवनम् एतस्य स्वभावं भावनं मनसि स्थापयामः चेत् स्थापयामः चेत् अस्माकं जीवन जीवनं पूर्णतया व्यक्ततां भवति कल्पयन् इति कल्पयन्तः इति कश्चन भक्तः वदति इति uh -huh. उक्तवन्तः अत्र इत्युक्ते अविदित्वा तत्र मनसि इर्षा मनसि लोभ मनसि कोपः द्वेषः इच्छा द्वेष आजीवनं वहन्तः जीवन व्यर्थ व्यर्थं भवति जीवनस्य व्यर्थताम् एव व्यर्थतामेव तत्र सम्यक् तथैव अहं तदा एक्ससैज् रूपेण एतस्मिन् क्षणे एव वयं कृतवा कृत कृतवन्तः सर्वे एतत् मनसि अस्तु पञ्चवर्षपूर्वे वा दशवर्षपूर्वे सः मां पीडां दत्तवान् आसीत् परन्तु एतस्मिन् क्षणे अहं सर्वं सर्वस्य विस्मरणमेव करोमि तस्य भारम् एव न एतस्मिन् क्षणे मनसि शान्तिः आगच्छति तृप्ति आगच्छति भाररहितम् अनुभवितुम् शक्नुमः वयं सर्वे तथा जीवनस्य सार्थकता कुत्र अस्ति इष्टाद्वेषा भावनायाम् भारवहनम् न करणीयम् इति विचारः अन्तिमम् महात्मा, महात्मा मन्दहासम् प्रकटितवान् गुरु गुरुमहात्मा मन्देन हासनं कृतवान् इति इति मन्दः प्रकटितं अहम् एक भगवद्गीता द्वितीयाध्याये एकश्लोकं श्लोकं त्रीणि सन्ति किल तद् स्मरणे भवत् सङ्कायते कामः कामात् क्रोधो जायते क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिविं स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् भ्रमश्यति रागद्वेषयुक्तस्तु विषयान् इन्द्रियान् चरन् आत्मै वैश्यै विधेयात्मा प्रसादम् अधिगच्छति इति प्रसादम् अधिगच्छति सम्यक् mm. उत्तमम् mm. तत्र उत्तमप्रकारेण mm. क्रमेण दत्तमस्ति कस्मात् mm. किं mm. सञ्जायते कस्मात् किम् mm. उद्भवति इति सैकोलोजिकलिफेक्ट् ah. mm. इति mm. mm. पञ्चमे विभक्तेः ये mm. प्रयोगः अस्ति तत्र उत्तम उत्तमं भवति उत्तमं प्रकारे उत्तमेन तत् स्मारितवती तत् उत्तमं तदेव मनसि आरम्भे स्फुरितम् अस्ति सत्यं कथायाम् आरम्भे एव भवेत् इति बोधः किञ्चित् रमिणी भगिनी वदति वा अस्माकं समीपे एकनिमिषम् अस्ति तत् वदति वा कथायाः विषये स्व स्वशब्दैः वदति वा रमणी भगिनी अहं परिश्रमं करोमि ईर्ष्या <laughs> कोपा mm -hmm. च दुर्गन्धपूरितं वायुहु इव सन्ति mm -hmm. ते अन्य अन्येषां कृते दुःखपूरितम् अस्ति सत्यम् अतः अतः mm -hmm. जनाः वेदान् गुणान् त्यक्तुं करणीयं ततः okay. सर्वे सन्तुष्टि शान्ति च अनुभवन्ति सत्यं सत्यम् उत्तममस्ति उत्तम धन्यवादः भारतमहोदय वदति वा कथायाः विषये um, yeah, um, mm. जीवन uh, दुर्गन्धः भवति दुर्गन्धम् आनयति भारयुक्तः मनः सन्तुष्टः शान्तः क्रोधरहितम् ईर्षारहितम् तव जीवन् भाररहितः भवति जीवनं भाररहितम् इति भवति उत्तमं महोदय उत्तमम् उत्तमं। धन्यवादः अत्र अगस्ट् महोदय वक्तुमिच्छति वा कथायाः विषये भगिनि Again, call me. I had a problem with the microphone. Ah, yeah. network samasya thi. Okay. So, uh I'm talking about the word. Uh uh this kata has a lot of words that that I don't don't know, so I mm -hmm. didn't understand. I have used to do the text, okay? So, we okay. can can meet then. अस्तु भवान् एकं करोतु पुनः एकवारं कथायाः पठनं करोतु अहम् अद्यदिने एव स्थापयामि अस्माकं गणे अत्र कुत्रापि काठिन्यं वर्तते तत् पृच्छतु पुनः एकवारं पठित्वा भवान् अवगन्तुं शक्नोति इति I prefer to only gear in, in, in studio after the, because chinta it, I, Chintamastu. Haan. Uh, paranthu, uh, Kima-pi-katra, uh, aham varam varam vadati khadu, doshaha santi che chinta maastu. Huh? Mm -hmm. Doshaha tu bhavanti evo, paranthu prayatnam karniyam. Huh? Ashtu bhavanek varam pathtu, agrime varga yada vaktum shaknuti tat vadatu, ichshat ichshet vadatu. Ashtu. अद्य दिने एव अहं गणे स्थापयामि कथा धन्यवाद वयं समापयामः समय अतिथः अम्बिकापतिमहोदय शान्तिमन्त्रं वदति वा आम् भगिनि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाद् भवेत् ॐ शान्ति शान्तिशान्तिः हरिः ओं तत् गुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवादः धन्यवादः भगिनि